सर्वे कौरवसैन्यस्य स पुत्रामत्यसैनिकाः संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः दुर्योधनेन ते वीरामानिताश्च विशेषतः प्राणाम् त्यक्ष्यन्ति सङ्ग्रामे इति मे समा भीष्मस्य वृत्तिरस्मासु तेषु च द्रोणस्य च महाबाहो कृपस्य च महात्मनः अवश्यम् राजपिण्डस्तैर्निर्वेश्य इति मे मतिः तस्मात् त्यक्ष्यन्ति प्राणानपि सुदुस्त्यजान् सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः अजेयाश्चेति मे बुद्धिरपि देवैः स वासवैः अमर्षी नित्यसंरब्धस्तत्र कर्णो महारथः सर्वास्त्रविदनाधृश्यो ह्यभेद्यकवचावृतः अनिर्जित्य रणे सर्वानेतान् पुरुषसत्तमान् अशक्यो ह्यसहायेन दुर्योधनस्त्वया न निद्रामधिगच्छामि चिन्तया नो भृकोदर अतिसर्वान् धनुर्ग्राहान्सूतपुत्रस्य लाघवम् वैशम्पायनुवाच एतद्वचनमाज्ञाय भीमसेनोत्यमर्षणः बभूव विमनास्त्रस्तो न चैवोवाच किञ्चन तयोः सोऽभिगम्य यथा न्यायम् पाण्डवैः प्रतिपूजितः युधिष्ठिरमिदम् वाक्यमुवाच वदतां वरः व्यास उवाच युधिष्ठिरमहाबाहो वेद्मि हृदयस्थितम् मनीषया भीष्माद्रोणात्कृपात् कर्णाद् द्रोणपुत्राच्च भारत दुर्योधनान्नृपसुतात् तथा दुःशासनादपि यत्ते भयममित्रघ्नहृदि सम्परिवर्तते तत्तेऽहम् नाशयिष्यामि विधिदृष्टेन कर्मणा तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय प्रतिपाद्यतु राजेन्द्र ततः क्षिप्रम् जहि तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरं। अब्रवीदुपपन्नार्थमिदम् वाक्यविशारदः श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम येनाभिभविता शत्रून् रणे पार्थो धनुर्धरः गृहाणे मां मया प्रोक्ताम् सिद्धिं मूर्तिमतीमिव विद्याम् प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि यामवाप्यमहाबाहुरर्जुनः साधयिष्यति अस्त्रहेतोर्महेन्द्रम् च रुद्रम् चैवाभिगच्छतु वरुणम् च कुबेरम् च धर्मराजम् च पाण्डव शक्तो ह्येष सुराम् च ऋषिरेश महातेजा सहायवान पुराणः शाश्वतो देवस्त्वजेयो विष्णुरच्युतः अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च समादाय महाबाहुर्महत्कर्म करिष्यति वनादस्माच्च कौन्तेयवनमन्यद् विचिन्त्यताम् निवासार्थाय यद्युक्तम् भवेद्वः पृथिवीपते एकत्र चिरवासो हि प्रीतिजननो भवेत् तापसानाम् च सर्वेषाम् भवेदुद्वेगकारकः मृगाणामुपयोगश्च वीरुदौषधि संक्षयः बिभर्षि च बहून् विप्रान्